नारायणीयं दशकं फिफ्टि त्रि मीटर् उपजाति अतीत्यबाल्यं जगदाम्पदेत्वमुपेत्य पौगण्ठवयो मनोज्ञम् उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः पुत्रापरित्राण कृतेवतीर्णस्तदेव देवारभधास्तदायद देवा कदा विरामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् श्रीदाम नाम्न स्वसखस्य वाचा मोदादगाधेनुककाननं त्वम् उत्तालतायी निवहे त्वदुक्रिया बलेन धूतेध बलेन दोर्भ्यां मृदुःखरश्चाभ्यपदत्पुरस्तात् फलोत्करो धेनुक दानवोऽपि समुद्यदो धैनुकपालनेऽहम् कथं कथं धैनुकमद्य कुर्वे तदीयभृत्यानपि जम्पूकत्वे नोपागदानग्रजसंयुतस्त्वम् जम्बूफलानीव तदा निरास्तस्थालेषु खेलन् भगवन्निरास्तः विनिघ्नदित्वय्यत जम्बुकौखं सनामकत्वाद्वरुणस्तदानीं वयाकुलो जम्बुकनामधेयं श्रुति प्रसिद्धं व्यथितेधि मन्ये तवावतारस्य भलं मुरारे सञ्जातमद्येदि सुरैर्नुतस्त्वं सत्यं भलं फलं जातमिहेदिहासि बालैः समं तालफलान्यभुङ्क्ताः मधुद्रवसृन्दि बृहन्दितानि फलानि मेदो भरभृन्दि भुक्त्वा तृप्तैश्च भवनं फलौखं वहद्भिरागा खलु बालकैस्त्वम् हदो हदो धेनुग इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः जयेदि जीवेदि नुदो विभो त्वं मरुत्पुराधीश्वर पाहिरोगात् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द